न तु सह वीर्यम् करवावहै तेजस्विनापतितमस्तु माद्विषावहैः ॐ शान्तिः ॐणानाम् त्वा गणपति कुम्भवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणा न शृण्वीदसाधनम् ओम् महागणपतये नमः ओ शं नो मित्रः शं वरुणः शं नो भवद्वर्यमा शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्तेवायो त्वमेव प्रत्यक्षम् ब्रह्मासि मेव प्रत्यक्षम् ब्रह्म भदिष्यामि व्रतम् भदिष्यामि सत्यम् भदिष्यामि तन् मामवतु तद्भक्तारमवतु अवतु माम् अवतु भक्तारम् ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ओ